नमः सोमाय सोमाय च प्रद्राय रुद्राय च क्ष नमः नमस्ताम्राय ताम्राय चारुणाय अरुणाय च नमः नमः शङ्गाय च त्वपशुपतये पशुपतये च पशुपतय इति पशु पतयेत् क नमः नम उग्राय उग्राय च स्वभीमाय भीमाय च कणमः नमो अग्रे वधाय अग्रेवय च अग्रे वधायेत्यग्रे वधाय स्वदूरे वधाय च दूरे वधायेति दूरे वधाय चनमः नमो हन्ते हन्ते च च हनीयसे हनीयसे च क्षणमः नमो वृक्षेभ्यः वृक्षेभ्यो हरिकेशेभ्यः हरिकेशेभ्यो नमः हरिकेशेभ्य इति हरि केशेभ्यः नमस्ताराय ताराय नमः नमः शम्भवे शम्भवे च शम्भव इति शम् भवे शमयो भवे मयो भवे च मयो भव इति मयः भवे श नमः नमः शङ्कराय शङ्कराय च शङ्करायेति शराय समयस्कराय वयस्कराय च मयस्करायेति मयः कराय च नमः नमः शिवाय शिवाय च स शिवतराय शिवतराय च शिवतरायेति शिवतराय प्रनमः नमस्तेर्ध्याय तेर्ध्याय च कोल्याय कोल्याय च चा, प्रनमः नमः पार्याय आर्याय चावार्याय चा अवायाय च नमः प्रतरणाय प्रतरणाय च चोत्तरणाय उत्तरणाय च तरणाय क्षणमः नम आतार्याय आतार्याय च आतार्यायेत्याय चालाद्याय आलाद्याय च आलाद्यायेत्या लाद्याय नमः नमः षष्ट्याय षष्ठ्याय ेण्याय च नमः नमः सिकत्याय च प्रवाह्याय प्रवाह्याय च प्रवाह्यायति प्रह्याय चेति च namasomaaya so